सम्प्रति वार्ता श्रयन्तां प्रवाचिका मुदितालेकर मानव संसाधन विकास विकासमन्त्री प्रकाशजावडेकर प्रावोचत् यत् प्रशासनं सर्वेभ्य अल्पमूल्येष् ग्णवत्तापूर्णा शिक्षायै प्रति प्रतिबद्धमस्ति जम्मूकश्मीरस्य बांदीपुरा जनपदे सैन्यबलेन अन्वीक्षणाभियाने अद्य प्रात द्वौ आतंकिनौ मारितौ राष्ट्रपति रामनाथकोविन्द ग्रीसदेशस्य राष्ट्रपतिना प्रोकोपेस पावलोप्लुसेन सह उपवेशनम् अकरोत् जावडेकर मानव संसाधन विकास मन्त्री प्रकाशजावडेकर यत् प्रशासनम् सर्वेभ्य अल्पमूल्येष् ग्णवत्तापूर्णां शिक्षां सुलभायित् प्रतिबद्धमस्ति असौ नवदिल्ल्यां तदीय मन्त्रालयस्य विगतवर्ष चत्ष्टये विहितकार्याणां विवरणं प्रास्तौत प्रोक्तं च यत् देशे शिक्षाप्रणाल्या स्दृढीकरणाय त्रयस्त्रिंशत् नूतन पदक्षेपा अपि च मध्याह् भोजनयोजनायै अतिरिक्त राशे व्यवस्था कृतास्ति कश्मीरस्य बांदीपुरा जनपदे आतंकिन विरुध्य कृते अन्वीक्षणाभियाने अद्य प्रात सैन्यबलेन द्वौ आतंकिनौ मारितौ इदानीं यावत् चत्वार आतंकिन मारिता सन्ति आरक्षिबलानुसारेण पनारस्य विपिनेष् बृहत् संख्यायाम् आतंकिनां सूचनाया अनन्तरं आरक्षिबलानाम् आतंकिनां च मध्ये भीषण गोलिकाप्रहारा अभवन विगत सप्ताहे द्वौ आतंकिनौ व्यापादितौ आस्ताम् एक सैनिक च हतिंगत आसीत जेटली जेटली जेटली केन्द्रीयमन्त्री अरुणजेटली अवादीत् यत् अष्टदशाधिक द्विसहस्रतम आर्थिक वृद्धि दर सप्तव सप्त प्रतिशत वर्त अत सिद्धमस्त भारत अर्थव्यवस्था विश्व विकासीलास्थव्यवस्थस अर्थ वर्तता राष्ट्रपति राष्ट्रपतिनाथकोविंद ग्रीस दृष्टि राष्ट्रपति प्रोकोपिस पावलोलुस उपवशनमक उ आर्थिक व्यापारिक सहयोग संवर्धनं समेत्य पारस्परिक हित सम्बन्धेष् विषयेष् चर्चा अभवत् देशद्वयस्य ऐतिहासिक सम्बन्धा आसन् श्रीकोविंदस्य अनया यात्रया च अतोऽपि सुदृढा भविष्यन्ति विदेशमन्त्री सुषमा स्वराज देशचतुष्टयस्य यात्राया प्रथमे चरणे अद्य इटली देशस्य विदेशमन्त्रिणं च मिलितवती देशद्रयस्य मित विविधक्षेत्रि पारस्परिक सहयोगाय वार्ता संजाता यात्राया द्वितीय चरने श्रीमती स्वराज अद्य फ्रांस दर्शं प्रति यास्यति असमराज्य उपत्यकाया प्रम्ख नदीनां जलस्तर न्यूनता दृश्यता अलकाप्र निर्वाचनक्षलाप्लाव कारणात् चिन्ताकरी वर्तता हैलाकांडी जनपदे द्वौ शवौ प्राप्तौ अत्रांतरे त्रिप्रायामपि नदीनां जलस्तरे न्यूनता दृश्यते राज्य शासनं अवादीत् यत जना साहाय्य शिविरेभ्य पुन गृहं प्रति गच्छन्ति उनाकोटी जनपदे अपि जनजीवनं सामान्यं भवति जापाने ओसाका नगरे अद्य प्रात संजाते प्रबल भूकम्पे त्रयो जना मृता द्विशताधिका च व्रणिता भूकम्पस्य तीव्रता षड् दशमलव एकमिता उट्टंकिता इती